श्रीहरये नमः अथ सप्तमोऽध्यायः श्रीभगभानुवाच यथातमा महाभाग तच्चिकीर्षितमेव मे ब्रह्मा भवो लोकपाला स्वर्वासं मेऽभिकाङ्क्षिणः माया निष्पातितं ह्यत्र देवकार्यम् अशेषतः यथर्थम् कुलं वैशापनिर्धक्तं नङ् अन्योन्यविग्रहात् समुद्रसप्तमे हनियेतां पुरीं यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः भविष्यत्यचिरात्साधो कलिनापि निराकृतः नवस्तव्यं त्वयैवेह मया त्यक्ते महीतले जनो धर्मरुचिर्भद्रभविष्यति कलौ युगे त्वं सर्वं परित्यज्य स्नेहं स्वजनबन्धुषो मय्या चरस्वगा यदि तं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् तस्य नानातो भ्रमस गुणदोषभा कर्मा कर्म विकर्मेति गुणदोषधियोभिता तस्माद्युक्तेन्द्रियग्रामो युक्तचित्तयितं जगत् आत्मनिक्षस्व विततम् आत्मानं ज्ञानविज्ञानसंयुक्त आत्मभूतशरीरिणा आत्मान आत्मानुभवतुष्टात्मानान्तरायैर्विहन्यसे दोषबुद्ध्यो भयातीतो निषेधान्तनिवर्तते गुणबुद्ध्या च विहितं न करोति सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः पश्यन्मधात्मकं विश्वं न विभत्ये तव पुनः श्रीसुख उवाच इत्यादिष्टो भगवता महाभागवतो नृपाम् उत्तवः प्रणिभत्यागतद्वजिज्ञासु अच्युतम् उद्धव उवाच योगेशयोगविन्यासयोगात्मन् योगसम्भवान् निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः सुतरां त्वयि सर्वात्मन् अभक्तैरिति मे मतिः सोऽहं ममाहमिति मोटमतिर्विगाढस् त्वन्मायया विरचितात्मनि सानुबन्धे तत्वञ्झसा निगतितं भवता यथाहं संसाधयामि भगवन् अनुशातिभृत्यम् सत्यश्च ते स्वदृश आत्मन आत्मनोऽन्यं सर्वे विमोहितधियस्तव मायये बहिरर्थभावाः तस्माद्भवन्तं अनवद्यमनन्तपारं सर्वज्ञमीश्वरमकुण्ठविकुण्ठदिष्ण्यं निर्विण्णधीरहमुखवृजिनाभितप्तो नारायणं नरसहं शरणं प्रभद्ये श्रीभगवानुवाच प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः समुद्धरन्ति ह्यात्मानम् आत्मनैव अशुभासयात् आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः यत्प्रत्यक्षानुमानाभ्यां श्रेयोसावनुविधते पुरुषत्वे च मां धीरा साङ्ख्ययोगविशारदाः आविस्तरां प्रपश्यन्ति सर्वशक्त्युपब्रह्मिदं यद्वित्रिचतुष्भातो बहुबाधस्तथापधहा बह्वयशन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया अत्र हेतुभिरीश्वरं गृह्यमाणैर्गुणैर्लिङ्गै अग्राह्यम् अनुमानतः अत्राप्युताहरन्तीमम् इतिहासं पुरातनम् अवधूतस्य संवादं यतो अमिततेजसः अवदूतं द्विजं कञ्चिच्चरन्तं मकुतो भयं कविं निरीक्ष तरुणं यदुः पप्रच्छधर्मवेत् यतुरुवाच कुतो बुद्धिरियं ब्रह्मन् अकर्तुः सुविशारदा यमासाद्य भवान् लोकं विद्वांश्चरति बालवत् प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः हेतु नैव समीहन्ते आयुषो यशशः त्वं तु कल्पकविर्दक्ष सुभगो मृतभाषणः न कर्तानेकसे किञ्झिज्झटोन्मत्तपिशाचव जनेषु दह्यमानेषु कामलो बधवाग्निना तप्यसेऽग्निना मुक्तो गङ्गाम्बस्तयिव द्विपः त्वं हि न ब्रह्मन् आत्मनानन्दकारणं ब्रूहिस्पर्शविहीनस्य भवतः केवलात्मनः श्रीभगवानुवाच यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा पृष्ठः सभाजितः प्राक् प्रश्रयावनतं यतो बुद्धिम् उपादाय मुक्ताटमीहतां शृणो कभातो जगरस्सिन्धोपधङ्को मधुकृद्गजः मधुकाकरिणो मीनः पिङ्गळा कुररोर्भगहान् कुमारीशरकृत्सर्पपूर्णनाभिः सुपेशकृदत् एते मे गुरवो राजन् चतुर्विंशतिराष्ट्रताकां शिक्षा वृद्धिभिये तेषाम् अन्यवत् शिक्षामिहात्मनः यतो यदनु शिक्षामि यथा वा ततता पुरुषव्याघ्रनिभूतकथयामि ते भूतैः आक्रम्यमाणोऽपि धीरो दैव वचानुगैः तद्विद्वान्तसलेन्मार्गात् अन्वशिक्षं शितेर्व्रतं शश्वत्परार्थसर्वैः परार्तैकान्तसम्भवः सा तु शिक्षेत भो वृत्तो न प्राणवृत्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियः प्रियैह्ये ज्ञानं यथा नश्येतनावकीर्येत वाङ्मनः विषयेष्वाभिसंयोगी नानाधर्मेषु सर्वतः गुणदोषव्यपेतात्मानविषज्येत वायुव पार्थिवेश्विकदेहेषु प्रविष्टस्तद्गुणाश्रयः गुणैर्न युज्यते योगी गन्तैर्वायुरिवात्मधृ अन्तर्हितश्च स्थिरङ्गमेषो ब्रह्मात्मभावेन समन्वयने व्याप्त्यावच्छेदम् असङ्गात्मनो मुनिर्नभस्त्वं विततस्य भावये तेजो बन्दमयैर्भावैर्मेघाद्यैर्वायुनेरितैः न स्पृश्यते न बस्तद्वत् कालसृष्ठैर्गुणैः पुमान् स्वच्छः प्रकृतितः स्निग्धो मातुर्यस्तीर्थभूर्नृणान् मुनिः पुनात्यपां मित्रम् ईशोपस्पर्शकीर्तनैः तेजस्वी तपसा दुर्दर्शो धरभाजनः सर्वभक्षोऽपि युत्तात्माना क्वचिच्छन्न क्वचित् स्पष्ट उपास्य श्रेय इच्छतां भुङ्क्ते सर्वत्र धातॄणां स्वमायया सृष्टमिदं सदसंलक्षणं विभुः प्रविष्ट ईयते विसर्गात्याश्मशानन्ताभावादेगस्य नात्मनः कलानामिव सन्द्रश्यकालेन अव्यक्तवर्त्मन कालेन योगवेगेन भूतानां प्रभवाप्ययो नित्यावपि न दृश्येते आत्मनोऽग्नेर्यधार्शि गुणैर्गुणान् उपाधत्ते यथा कालं विमुञ्चति न तेषु युज्यते योगी गोपिर्गा इव गोपतिः बुध्यते स्वेन भेदेन व्यक्तिस्त इव तद्गतः लक्ष्यते स्थूलमधिभिः आत्मा चावस्थितोऽर्कवत् नातिस्नेकप्रसङ्गो वा कर्तव्यक्वापि केनचित् कुर्वन् विन्देत सन्तापं कपोत इव कपोतः कश्चनारण्ये कृतनीढो वनस्पतौ कपोत्या भार्यया सार्धमुवास कतिचित्समाः कपोदौ स्नेकगुणितः हृतयौ दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धुः संयासनाढनस्थानवार्ता क्रीडासनादिकं मिथुनीभूय विस्रब्धौ चेरतुर्वनराजिषु यं यं तं तं समनयत्कामं कृश्रेणापि अजिदेन्द्रियः कपोति प्रथम गर्भम गृहति काल आगते अंडा शुशुभे नीडे स्वतुसनिध सतीले व्यजातरचिता वयवाहरे शक्तिभिर्धुर्विभाव्या बी कोमलाङ्गत नूरुहा प्रजापुपुक्षतुः प्रीतौ दम्पती पुत्रभत्सलौ शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाक्षितैः तासां पतत्रैः सुस्पर्शैः कूजितैर्मुक्तचेष्टितैः प्रत्युद्गमै अधीनानां पितरौ यौ अन्योन्यं विष्णु मायया विमोहितौ दीनति यौ शुष्यून् पुभुषतु प्रजाः एकथा जग्मतुस्तासाम् अन्नार्तं तौ कुडुम्भिनौ परितःकाने न तस्मिन् अर्थिनौ चेरतुश्चिरं दृष्ट्वा ताल्लुब्धगत्कश्चित् वने चरखा जगृहे जालमातत्यशरथक्स्वालयान्तिके कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ गतौ ुः कपोती स्वात्मजान् वीक्ष बालकाञ्जालसम्भृतान् तानभ्यधावत् क्रोसन्ति क्रोसतो भृसदुःखिता सा स्वयं चाभत्यदशि च भक्तान् पश्यन्त्यपस्मृतिः कपोतश्चात्मजान् भक्तान् आत्मनोऽप्यधिकान् प्रियान् भार्यां सात्मसमां दीनो विललाभाति दुःखितः अहो मे पश्यतापायम् अल्पपुण्यस्य धुर्मतेः अतृप्तस्य अकृतार्थस्य गृहस्त्रैवर्गिनो हतः अनुरूपानुकूला च यस्मे शून्ये गृहे मां सन्त्यज्य पुत्रै स्वर्यातिसाधुभिः सोखं शून्ये गृहे दीनो मृतधारो मृतव्रजः जि वा विदुरो दुःखजीवितः तांस्ततैवावृतान् झिक्बेर् मृत्युक्रस्तान् विचेष्टतः स्वयं च पश्यन् अप्यभुतो भत तं लब्ध्धालुप्तक्रूरकपोतं गृहमे दिनं कपोतकान् कपोतीं सिद्धार्थः गृहम् एवं कुटुम्पि असान्तात्मा त्वन्त्वा रामः पुष्णन् कुटुम्बं कृपणः सानुभन्तो लोकं मुक्तिर्द्वारमभावृतं गृहेषु खगवत्सक्तस्तमारूढश्च्युतं विदुः श्रीमद्भागवते महापुराणे एकादशस्कन्ते सब्दमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज के जय